श्रीलक्ष्म्यष्टोत्तरशतनामावलिः ॐ श्रीं प्रकृत्यं श्रीं विकृत्यद्यायै नमः सर्वभूतहितप्रदाय श्रीं श्रद्धाय नमः ॐ श्रीं विभूत्यै नमः ॐ श्रीं सुलभ्यै नमः ॐ श्रीं परमात्मिकायै नमः श्रीं वाचे नमः ॐ श्रीं पद्मालयाय नमः ॐ श्रीं पद्मायै नमः ॐ श्रीं सुचये नमः ॐ श्रीं स्वाहायै नमः श्रीं स्वधाय श्रीं सुधाय नमः ॐ श्रीं धन्यायै नमः ॐ श्रीं हिरण्मयै नमः ॐ श्रीं लक्ष्म्यै नमः ॐ श्रीं नित्यपुष्ठायै नमः श्रीं विभावर्य श्रीं आदित्यै नमः ॐ श्रीं दित्यै नमः ॐ श्रीं दीप्तायै नमः ॐ श्रीं वसुधाय नमः श्रीं वसुधारिण्यै नमः ॐ श्रीं कमलायै नमः ॐ श्रीं कान्तायै नमः ॐ श्रीं कामाक्ष्म्यै नमः ॐ श्रीं क्रोधसम्भवायै नमः ॐ श्रीं अनुग्रहप्रदायै नमः ॐ श्रीं बुद्धये नमः ॐ श्रीं अनघायै नमः ॐ श्रीं हरिवल्लभायै नमः ॐ श्रीं अशोकायै नमः श्रीं अमृतायै नमः ॐ श्रीं दीप्तायै नमः ॐ श्रीं लोकशोकविनाशिनै नमः ॐ श्रीं धर्मनिलयायै नमः ॐ श्रीं करुणाय नमः मात्रे ॐ श्रीं पद्मप्रियायै नमः ॐ श्रीं पद्महस्ताय नमः ॐ श्रीं पद्माक्ष्म्यै नमः ॐ श्रीं पद्मसुन्दर्यै नमः ॐ श्रीं पद्मोद्भवायै नमः ॐ श्रीं पद्ममुखै नमः ॐ श्रीं पद्मनाभप्रियायै नमः ॐ श्रीं रमायै नमः श्रीं पद्ममालाधराय नमः ॐ श्रीं देव्यै नमः ॐ श्रीं पद्मिन्यै नमः ॐ श्रीं पद्मगन्धिन्यै नमः ॐ श्रीं पुण्यगन्धायै नमः ॐ श्रीं सुप्रसन्नायै नमः ॐ श्रीं प्रसादाभिमुखीयै नमः ॐ श्रीं प्रभायै नमः श्रीं चन्द्रवदनाय ॐ श्रीं चन्द्राय ॐ श्रीं चन्द्रसहोदर्यै नमः ॐ श्रीं चतुर्भुजायै नमः श्रीं चन्द्ररूपायै नमः ॐ श्रीं इन्दिराय नमः ॐ श्रीं इन्दुशीतलायै नमः ॐ श्रीं आह्लादजनन्यै नमः ॐ श्रीं पुष्ट्यै नमः ॐ श्रीं शिवायै नमः ॐ श्रीं शिवकर्यै नमः ॐ श्रीं सत्यै नमः ॐ श्रीं विमलायै नमः श्रीं विश्वजनन्यै नमः ॐ श्रीं तुष्टये नमः ॐ श्रीं दारिद्र्यनाशिन्यै नमः ॐ श्रीं प्रीतिपुष्करिण्यै नमः ॐ श्रीं शान्तायै नमः श्रीं शुक्लमाल्याम्बराय नमः ॐ श्रीं श्रियै नमः ॐ श्रीं भास्कर्यै नमः ॐ श्रीं बिल्वनिलयायै नमः ॐ श्रीं वरारोहायै नमः श्रीं यशस्विन्यै नमः ॐ श्रीं वसुन्धराय नमः ॐ श्रीं उदाराङ्गायै नमः ॐ श्रीं हरिण्यै नमः ॐ श्रीं हेममालिन्यै नमः श्रीं धनधान्यकर्य श्रीं सिद्धयै ॐ श्रीं सैनसौम्यायै नमः ॐ श्रीं शुभप्रदायै नमः ीं नृपवेश्मगतान्दायै ॐ श्रीं वरलक्ष्म्यै नमः ॐ श्रीं वसुप्रदायै नमः ॐ श्रीं शुभायै नमः ॐ श्री हिरण्यप्राकाराय नमः ॐ श्रीं समुद्रतनयायै नमः ॐ श्रीं जयायै नमः ॐ श्रीं मङ्गलायै नमः ॐ श्रीं देव्यै नमः श्रीं विष्णुवक्षस्थलस्थितायै श्रीं विष्णुपत्न्यै नमः ॐ श्रीं प्रसन्नाक्ष्यै नमः ॐ श्रीं नारायणसमाश्रितायै नमः दारिद्र्यध्वंसिन्य ॐ श्रीं देव्यै नमः ॐ श्रीं सर्वोपद्रववारिण्यै नमः ॐ श्रीं नवदुर्गायै नम नमः श्रीं महाकाल्यै श्रीं ब्रह्मविष्णुशिवात्मिकायै श्रीं त्रिकालज्ञानपरिज्ञायै नमः ॐ श्रीं भुवनेश्वर्यै नमः इति श्रीलक्ष्म्यष्टोत्तरशतनामा बलिः हरिः ॐ शान्तिः